एकादशोऽध्यायः ध्यानम् ओ बाररविद्युतिर्मिन्दुविरीताम् तुङ्गकौचाम् नयनत्रययुक्ताम् स्मेरमुखीम् वरदाम् कुशपाशाभीतिकराम् प्रभजे भुवनेशी ओम् ऋषुवाच देव्या हरे तत्र महासुरेन्द्रे सेन्द्रासुरावह्निपुरोगमास्ताम् कात्यायनीम् तुष्टूरिष्टलाभात् विकाशिवत्ताब्ज विकाशिताशाः देविप्रपन्नार्तिहरे प्रसीद प्रसीदमातर्जगतोऽखिलस्य प्रसीदविश्वेश्वरि पाहि विश्वम् त्वमीश्वरी देवि चराचरस्य आधारभूता जगतस्त्वमेका महीस्वरूपेण यतस्थितासि अपाम् स्वरूपस्थितया त्वयैतत् आप्यायते कृत्स्नमलङ्घवीर्ये त्वम् वैष्णवीशक्तिरनन्तवीर्य विश्वस्य बीजम् परमासि माया सम्मोहितम् देवि समस्तमेतत् त्वम् वै विद्याः समस्तास्तवदे विभेदाः श्रियः समस्ताः सकला जगत्सु त्वयैकया पूरितमम्बयैतत् काते स्तुतिस्तव्यपरापरोक्तिः सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी त्वम् भवन्तु परमोक्तयः सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते स्वर्गापर्गदे देवी नारायणि नमोस्तु कलाकादीपेण पिनाम प्रदाय विश्व शक् नाराएणि नमोस्तुमंगल्ये शिवे सर्वासाधि श्ये त्र्यंबे गौरी नारायणि नमोस्तु सृष्टिस्थि विनाशा शक्तिभूते सनातनी गुणाश्रये गुणमये नारायणि नमोस्तु ते शरणागतदीनार्तपरित्राणपरायणे सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते हंसयुक्तविमानस्थे ब्रह्माणि रूपधारिणि कौशाम्बहक्षरिके देवि नारायणि नमोस्तु ते त्रिशूलचन्द्राहिधरे महावृषभवाहिनि माहेश्वरीस्वरूपेण नारायणिनमुस्तु ते मयूरकुक्कुटवृते महाशक्तिधरेणे कौमारीरूप संस्थाने नारायणिनमुस्तु ते शङ्खचक्रगदाशार्गृहीतपरमायुधे प्रसीद वैष्णवीरूपे नारायणिनमुस्तुते गृहीतोऽग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे वराहरूपि शिवे नारायणिनमोस्तु ते नृसिंहरूपेणोऽग्रेण हन्तुम् दैत्यान्कृतोद्यमे त्रैलोक्यत्राणसहिते नारायणिनमोस्तु ते किरीटिनिमहावज्रे सहस्रनयनोज्ज्वले वृत्रप्राणहरे चैन्द्रिनारायणिनमोस्तुते शिवदूतीस्वरूपेण हतदैत्यमहाबले घोररूपे महारावे नारायणि नमस्तुते ते दंष्ट्राकरालवदने शिरोमाला विभूषणे चामुण्डे मुण्डमथने नारायणि नमोस्तु ते लक्ष्मिलज्जे महाविद्ये श्रद्धे पुष्टिस्त्वधे ध्रुवे महारात्रिमहाविद्ये नारायणि नमोस्तु ते मेधे सरस्वतिवरे भूति वा नियते प्रसीदेशे नारायणि नमोस्तु ते सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोऽस्तु ते एतत्तेवदनम् सौम्यम् लोचनत्रयभूषितम् पातुनः सर्वभीतिभ्यः कात्यायणि नमोस्तु ते त्रिशूलम् पातु नो भीतेर्भद्रकालिनमोऽस्तु ते, ते हिनश्चिदैत्यतेजांसि स्वनेन पूर्यया जगते। सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव असुराश्रग्वसा पङ्कचर्चितस्ते करोज्ज्वलः शुभाय भवतु चण्डिके नताभयम् रोगाण शेषानपहंसितुष्टानुष्टा तु कामान् सकलानभीष्टान् त्वामाश्रितानाम् न विपन्नराणाम् त्वामाश्रिता ह्याश्रयताम् प्रयान्ति एतत्कृतम् यत्कथनम् त्वयाद्यधर्मद्विषाम् देविमहासुराणाम् रूपेरनेकैर्बहुधात्ममूर्तिम् नृत्वाम्बिकेतत्प्रकरोति कान्या विद्यासु शास्त्रेषु विवेकदीपेष्वाद्येषु वाक्येषु च कात्वरन्या ममत्वगर्तेति महान्धकारे विभ्रामयत्येतदतीव विश्वम् रक्षांसि यत्रोग्रविशाश्च नागायत्रारयोदस्यु बलानि यत्र दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता परिपासि विश्वम् विश्वेश्वरित्वम् परिपासि विश्वम् विश्वात्मिका धारयसीति विश्वम् विश्वेशवन्द्या भवती भवन्ति विश्वाश्रयाये त्वयि भक्तिनम्राः देवि प्रसीद परिपालय नोरिभीतेर्नित्यम् यथा सुरवधा दधुनैव सद्यः पापानि सर्वजगताम् प्रशमम् नयाशु उत्पादपाकजनितांश्च महोपसर्गान् प्रणतानाम् प्रसीदत्वं देवि विश्वार्तिहारिणि त्रैलोक्यवासिनामेद्ये लोकानाम् वरदा भव देव्युवाच वरदाहम् सुरगणा वरम् यन्मनसेच्छथ तम् ऋणध्वम् प्रयच्छामि जगतामुपकारकम् देवाऊचुः सर्वा बाधा प्रशमनम् एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् देव्युवाच वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ नन्दगोपगृहे जाता यशोदा गर्भसम्भवा पुनरप्यतिरौद्रेण रूपेण पृथिवीतले अवतीर्य हरिष्यामि वैप्रचित्ताम् स्तुदानवान् भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान् रक्तादन्ता भविष्यन्ति दाडिमी कुसुमोपमाः ततो माम् देवताः स्वर्गे वर्त्यलोके च मानवाः स्तुवन्तोऽ व्याहरिष्यन्ति सततम् रक्तदन्तिकाम् भूयश्च शत वार्षिक्यामना वृष्ट्यामनम् भसि मुनेः संस्तुता भूमौ सम्भविष्याम्ययो निजा ततः शतेन नेत्राणाम् निरीक्षिष्यामि यन्मुनीन् कीर्तयिष्यन्ति मनुजाः ततः ततोऽहमखिलम् लोकमात्मदेहसमुद्भवैः भरिष्यामि सुराशाकैरावृष्टेः प्राणधारकैः शाकम्भरीति विख्यातिम् तदा यास्याम्यहम् भुवि तत्रैव च वधिष्यामि दुर्गमाख्यम् महासुरम् दुर्गादेवीति विख्यातम् तन्मे नाम भविष्यति गुणश्चाहम् यदा भीमम् रूपम् कृत्वा हिमाचले रक्षाम् शिभक्षयिष्यामि मुनीनाम् त्राणकारणात् तदा माम् मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः धीमा देवीति विख्यातम् तन्मे नाम भविष्यति यदा ऋणार्ख्यस्त्रैलोक्ये महाबाधाम् करिष्यति तदाहम् भ्रामरम् रूपम् कृत्वा सङ्ख्येय षट्पदम् त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् भ्रामरीति च माम् लोकास्तदा स्तोष्यन्ति सर्वदः इत्थम् यदा यदा बाधा दानवोत्था भविष्यति तदा तदावतीर्याहम् करिष्याम्यदि संक्षयम् ओ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देव्या स्तुतिर्नाम एकादशोऽध्यायः